कटुभाषणयम किङ्कर्पतली कृतताडन परिपीडनमरनागमसमये सह मम चेतसि यमु शासननिवसन् शिव शिवशंकर, शिवशंकर शङ्कर हर हरितम् शिवशंकर जटा दर हर मे हर दुरित शिव शङ्कर शिव शङ्कर हर मे हर दुरितम् शकटु जल्पित खल ग्रहण चलति शिवया सह मम शिव शङ्कर हर शङ्कर शिव शंकर हर मे भर दुरितम् शिव शंकर हि जटा हर मे हर दुरित शिव शङ्कर शिव शङ्कर हर मे भर दुरितम् शङ्कर शिव शंकर हर मे हर दुरित शिव शङ्कर हि जटा धर हर मे हर दुरित शिव शङ्कर शिव शङ्कर शङ्कर शिव श्यो शङ्कर हर मे भर दुरित शिव शङ्कर हि जटा दर हर